एकसप्तति तमोऽध्यायः वैशम्पायन उवाच तथो गच्छन् महाबाहुरेको मात्यान् विसृज्यतान् नापश्यञ्चाश्रमे तस्मिन् स्तम् ऋषिम् संशित व्रतम् दृष्ट्वा तथाश्रमम् उवाच क सन्नादयन्निव श्रुत्वा तस्य तम् कन्या श्रीरिव रूपिणी निश्चक्रामाश्रमात् तस्मात् दृष्ट्वैव राजानम् दुष्यन्तमसितेक्षणा सुव्रताभ्यागतम् तम् तु पूज्यम् प्राप्तमथेश्वरम् रूपयौवन सम्पन्ना शुभा सातमायत पद्माक्षम् व्यूढोरस्कम् सुसंहतम् सिंहस्कन्धम् दीर्घबाहुम् सर्वलक्षण पूजितम् विस्पष्टम् मधुराम् वाचम् साब्रवीजनमेजय त इति क्षिप्रमुवाच प्रतिपूज्य च आसनेनार्चयित्वा च पाद्येनार्घ्येण चैव हि पप्रच्छानामयम् राजम् कुशलम् च यथावदर्चयित्वाथ पृष्ट्वा चानामयम् तदा उवाच स्मयमानेव वा किम् कार्यम् क्रियतामिति आश्रमस्याभिगमने किम् त्वम् कार्यम् चिकीर्षसि कस्त्वमध्येह सम्प्राप्तो महर्षेराश्रमम् शुभम् तामब्रवीत् राजा कन्याम् मधुरभाषिणीम् दृष्ट्वा चैवानवद्याङ्गी यथावत् प्रतिपूजितः दुष्यन्त उवाच राजर्षेरस्मि पुत्रोह मिलिलस्य महात्मनः दुष्यन्त इति नाम सत्यम् पुष्करलोचने आगतोऽहम् महाभागम् ऋषिम् कण्वमुपासितुम् क्व गतो भगवान् भद्रे तन्ममा चक्ष्वशोभने शकुन्तलोवाच गतः भगवान् फलान्याहर्तुमाश्रमात् मुहूर्तम् सम्प्रतीक्ष्य स्व्रष्टास्येनमुपागतम् वैशम्पायनौ वाच अपश्यमानस्तम् ऋषिम् तथा चोक्तस्तया च सः दृष्ट्वा च वरारोहाम् श्रीमतीम् विभ्राजमानाम् वपुषा तपसा च दमेन च रूपयौवनसम्पन्नाम् इत्युवाचमहीपतिः का कस्यासि शुश्रोणि किमर्थम् चागता वनम् रूपगुणोपेता कुतस्त्वमसि शोभने दर्शनादेव हि शुभे त्वयामेपहृतम् मनः इच्छामि त्वामहम् ज्ञातुम् तन्ममा चक्ष्वशोभने शृणु मेनागनासोर्वचनम् मत्तकाशिनि राजर्षेरन्वये पुरोरस्मि विशेषतः वृणेत्वामद्य सुश्रोणि दुष्यन्तो वरवर्णिनि नमेन मेन्त्र क्षत्रियां मनो प्रवर्तते ऋषिपुत्रुचान्या्या्यासु नर्णसु परासु व तस्मा प्रणितात्मान विदिमा कलभाषिणि ते ई भावस्ति क्षत्रियासी खा वद नि मे भेरुबिप्रायां मन प्रसहते गति भजे तायतापांगि भक्त भजिमर्हसी भुंक्शराज्यं विशालाक्षिबुद्धि मृता